एतद् भवदीयं कस्मिंश्चित् देशे कश्चन आसी। महाराजः आसीत् सः नितरां धर्मनिष्ठः दानशीलः च कदाचित् राजभवनं प्रति कश्चन तापसः आगतवान् महाराजः अतीवसन्तोषेण तस्य प्रणामं कृतवान् उक्तवान् च भोः साधु महाराज भवतः आगमनेन मम राजभवनं पवित्रम् अभवत् अद्य भवते अत्यमूल्यं कमपि उपाहारं ददामि वदतु किं ददामि इति तापसः उक्तवान् भवान् आत्मनः अत्यन्तं प्रियं वस्तु मह्यं ददातु इति झटिति महाराजा उक्तवान् किम् अहं मम राज्ये कोषं वा समर्पयामि इति तत्सर्वं प्रजाजनानां न तु भवदीयं भवान् तु तस्य संरक्षणमात्रं करोति तापसः अवदत् एवं चेत् राजभवनं स्थातिकं वा ददामि एतत्तु मदी महाराज उक्तवान् तापसः किञ्चित् हसित्वा उक्तवान् महाराज भवान् विस्मृतवान् अस्ति यत् एतदपि प्रजाजनानामेव इति भवतः कार्ये सौविध्यकल्पनाय एतद् भवते दत्तं भवति तर्हि मम शरीरमेव ददामि एतद्वा मदीयम् इति अङ्गीकरोति खलु महाराज उक्तवान् तत् भवतः मातापितृभ्यां दत्तं तदुपरि भवतः पुत्राणाम् अधिकारः भवति न तु भवतः तापसः अवदत् अधुना तु महाराजा विस्मयेन मूकः भव अभवत् सः अग्रे किं वक्तव्यम् इत्येव न ज्ञातवान् तदा तापसः एव उक्तवान् राजन् भवतः मनसि यः अहङ्कारः अस्ति सः पूर्णतः भवदीयः एव तस् दानम करोतु यहाँ अहंकार विधा बंधन से योगी महाराज अनतरदनासक्व शासनवा